श्रीमन्महाभारतम् सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे अष्टचत्वारिंशो अध्यायः शकुनिरुवाच दुर्योधननते मर्षः कार्यः प्रतियुधिष्ठिरम् भागधेयानि भागधेयानिहि स्वानि पाण्डवा भुञ्जते सदा विधानम् विविधाकारं परम् तेषाम् विधानतः अनेकैरभ्युपायैश्च त्वया न पुरा आरब्धाश्च महाराजपुन पुनः पुनररिन्दमा विमुक्ताश्च न भागधेय पुरस्कृताः तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् अजितः सोऽपि सर्वैर्हि सदेवासुरमानुषैः तत्तेजसा प्रवृद्धोऽसौ तत्र का लब्धश्चानभिभूतार्थैः पितृंशः पृथिवीपते विवृद्धस्तेजसा तेषाम् तत्र का परिदेवन धनञ्जयेन गाण्डीवमक्षैयौ च महेषु लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम् तेन कार्मुक मुख्येन बाहुवीर्येण चात्मनः कृता महीपालास्तत्र का अग्निदाहान्मयञ्चापि मोक्षयित्वा स दानवम् सभां तां कारयामास सव्यसाची परन्तपः तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः वहन्ति तां सभाम् भीमास्तत्र का परिदेवना यच्चासहायतां राजन्नुक्तवानसि भारत तन्मिथ्या भ्रातरोही मे तव सर्वे वशानुगाः